हंसंदेशीमद्वेदेशिचि हंसंदेशीरस्तरामचंद्रा श्री श्री नम श्रीमागड़नाधार्यकताकिसरी वेदार्यवर्े सन्निधत्ता सदा हृदि प्रथमाश्वासः वंशे जादसविदुरनखे मानयन्मानुषत्वं देवश्रीमाञ्जनकतनयान्वेषणे जागरूकः प्रत्यायादे पवनतनये नि सकामी कल्पकारा कथम विभाद विशेषे काल्य कपिकुलपदे कुलपद मुद्यो मुदजिष्य दूरीभावाज्जनकदुखितोर्दूयमानान्तरात्मा क्रीडाखेलं कमलसरसि क्वापि कालोपयातं राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श तस्मिन् सीता गदिमनुगदे तद्दुकूलाङ्गमूर्तौ तन्मञ्जीरप्रदिमनिनदे न्यस्तनिस्पन्ददृष्टिः दो विलयमगमतन्मयात्मा मुहूर्तं शङ्खे तीव्रं भवति समये शासनं मीनकेदोः लब्ध्वा शा स कथमपि तदा लक्ष्मणस्याग्रजन्मा सन्देशेन प्रणयमहदा मैथिलीं जीवयिष्यन् चक्रे तस्मै सरसिजदलैः सोपचारां सपर्यां कान्दाश्लैशादधिकसुभगकामिनां दूदलाभः कृत्वा तस्मिन् बहुमधिमसौ भूयसी माञ्जनेयाद गाढोन्मादप्रणयपदवीं प्रापवार्तानभिज्ञे विश्लेषेणक्षुभिधमनसां मेखशैलद्रुमादौ याज्ञादैन्यम् भवति किमुद क्वापि संवेदनार्हे वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्तेः आहुःसिद्धा कमलवसते रौपवाह्यं भवन्तं लब्धं येन प्रगुणगतिना तत्प्रियाया सकाशात् तत्सावर्ण्यं श्रवणरसना स्वादयोग्या सुधा च मध्ये जिद्वयमिह सखे केवलं मानुषाणां व्यक्तोत्कर्षो महदिभुवने भुवने व्योमगानां पतिस्त्वं स्थाने दूत्यम् तदपि भवतः संश्रितत्राणेदोः विश्वस्रष्टा विधिरपि यतः सारथित्वेन तस्थौ इच्छा मात्राज्जगदपरधा संविधातुं क्षमाणाम् प्रकृति प्रेक्ष्य प्रकृतिमदादी प्रेक्ष्यवेलालक्ष्ये जलधिपयसा त्रिकूटे। लंस्ताूटे लंग गु तवस राक्ष राजनी स्थानिव्यपचितगुण चंदना मुक्तासूदिं मलयमरुदां मातरं दक्षिणां शाम् अस्मत्प्रीत्यै जनकतनया जीवितार्थं च गच्छन् एकं रक्षःपदमिति सखे दोषलेशं सहेथाः वाचालानामिव जडधियाम् सत्कवौ दूरयादे कैलासाय त्वयि गतवदिक्षीबतामाश्रितानां सम्मोदस्ते पथि परिणमे चन्द्रकैरुच्छितानां मेखापाये विपिनशिखिनां वीक्ष्य वाचं यमत्वम् आरक्तानां नवमधुशनैरापि कालो निद्रे कुवलयवने कूर्णमानसलीलं स्विनोदानैर्विपिनकरिणां से सौम्य सेविष्यदे आमोदानामहमहमिकामादिशन् गन्धवाः पर्याप्तं ते पवनचलितै पवनचलितैरङ्गरागं परागैः स्थाने कुर्युः समसमुदयाद् बन्धवो बन्धुजीवाः येनान्वेष्यस्य चलतनया पादलाक्षानुषक्रं चूडाचन्द्रं पुरविजयिनस्वर्णदीफेन पूर्णं चारो पान्ता शतमखधनुःशेषचित्रांशुकेन सूक्ष्माकारैर्दिनकरकरैकल्पितान्तः शलाकाः पश्चादुचितगदिना वायुना राजहंसः चत्रायेरन्नभसि भवतः शारदा वारिवाहा द्रक्ष्यस्येवं प्रियसखसुखं लङ्खिताध्वा सखीन्ते सीतां क्षेत्रे जनकनृपतेरुद्धिदां शिरकृष्टे गोपायन्तीतनुमभिनिजां या कथं जिन्मदर्थं भूमौ लोके वहदि महदी मेकपत्नी समाख्यां प्रक्षीणां त्वद्विरहसमये हर्षामिदानीम् प्रत्यायास्यन्ननुनय शनैपत्मिनीं स्वादुवाचा साधे तन्त्री स्वनसुभगया स्यादिदीहाभ्यनुज्ञां मन्ये कुर्यान् मधुकरगिरा मैथिली सौहृदेन सार्धं कान्तैः शबर सुदृशामद्रिकुञ्जेषु रागाद आसीनानां क्षणमसमये दृश्यचन्द्रोदयश्रीः उड्डीये शानुसारी पश्यन्दूरात् प्रबल पक्षिणां दत्तवर्मा अङ्गीकुर्वन्नमृदरुचिरामुत्पदिष्णोः सलीलं छायामन्दस्तवमणिमयो माल्यवानेषशैलः शोभां वक्ष्यत्यधिकललितां शोभमानामदीन्दोः ेवस्यादेरुपजनयतो मानसा बिन्दुबिम्बम् मार्गौ सम्यग् मम हनुमदा वर्णितौ द्वौ तयोस्ते सह्यासन्नोऽप्यनदि सुभगः पश्चिमो नित्यवर्षः प्राचीने दुप्रतिजनपदम् संहतावता मग्ना दृष्टि कथमी सखे मत्ते ते निवार प्रत्यासन्ना सपदीना सादर निर्गता श्रुवा शब्द श्रवण मधुर तवक प्याधिक निश्चितांग अभ्रू भंगेकिताकन गिरी किसलयमयम तल्पमा तपमार तस्तुषीण सलापायस्तर्मुदनसा शाली संरक्षिकाणां कर्णाडान्ध्रव्यतिकरवशात् कर्बुरे गीतिभेदे मुह्यन्दीनां मदनकलुषं मौग्ध्यमास्वादयेधाः विष्णोर्वासादवनिवहनाद्बद्धरत्नै शिरोभिः शेषसाक्षादयमिति जनैः सम्यगुन्नीयमानः अभ्रैर्युक्तो लघुभिरचिरोन्मुक्तनिर्मोकल्पैः अग्रे भावी तदनुनयने रञ्जयन्नञ्जनाद्रिः त्रूढ़र्गिस्वतीर्ण सोन्माव्यपगदस्ता साधारण पंखशो बध्यम शक्रिया काम मधु विजयिन स्वच कुकोन्मग्नस्फुरीदुलिना तोन्नीय द्रक्ष्य सराकनक दक्षिणाजनाद्रे आसन्ना वन विडपिना वीजिहस् प्रसूनान्यर्चा हेदोपदीया नून मर्ेन्दु निर्श्यईनाभृतमनव्यक्तमचु प्रणो मंधा दूदुन पवनुला मोदगर्भ्यासपति पदवीं संश्रयान्यल्यो बन्धीकुर्युस्तडवसतयो मा भवन्दं किराताः तुण्डीराख्यं तदनुमहिदं मण्डलं वीक्षमाणः क्षेत्रं यायाः क्षपितदुरितं तत्र सत्यव्रताख्यं पत्यौ रोषात्सलिलवपुषो यत्र वाग्देवतायाः से दुर्जज्ञे सकलजगतामेक से दुःसदेवः नानारत्नैरुपचितगुणां नित्यसङ्गीतनादां भूमेर्द्रक्ष्यस्युचितविभवम् भूषणं तत्र यस्यां नित्यं निहिदतनयो हस्तिशैलाधिवासी द्वन्द्वातीतः स खलु पुरुषो दृश्यते सत्यकामः कामासीदन्प्रणमनगरीं भक्त्रिनम्रेण मूर्ध्ना जादामादौ कृतयुगमुखे धादुरिच्चावशेन यद्वीधीनां करिगिरिपदेर्वाह वेगावधूतान् धन्यान् रेणूं स्त्रिदशपदयो धारयन्द्युत्तमाङ्गैः मन्दाधूतात्तदनुमहितो निःसृतश्चूद षण्डाद पार्श्वे तस्याः पशुपतिशिरश्चन्द्रनीहारवाही दूरात्प्राप्तं प्रियसकमिवत्वामुपैष्यत्यवश्यं कम्पाधः कमलवनिका कामुको गन्धवाहः वर्णस्थोमैरिव परिणदा सप्तभेदैर्महौखैः मान्यामध्ये नगरमभिदस्येविदा देवताभिः स्वामिनी वक्कवीनाम वेगा सञ्ज्ञां वहदि महदीं वल्लभा पद्मयोनेः तीर्थे पुंसां शमिदकलुषे तत्र सारस्वताख्ये स्नात्वा सार्थम् मुनिपिरनखैः सम्यगुल्लासिताङ्कः विश्वं चित्ते विगदरज्जसि व्यञ्जयन्तीमशेषं वक्ष्यस्य अन्तर्बहिरपि परा शुद्धिमक्षेपणीयाम् तस्यास्तीरे सरसिजभुवः सौम्य वैतानवेदिः दिव्यं कुर्वन् द्रमिडविषयं दृश्यते हस्तिशैलः यस्योपान्ते कृतवसतयो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः सञ्जिन्वाना तरुणतुलसी दामभिस्वामभिख्यां तस्यां वेद्यामनुविदधी श्यामलं हव्यवाहम् भोगैश्वर्यप्रियसहचरैकापि कापि लक्ष्मीकडाक्षैः भूयस्यामा भु भुवनजननी देवता सन्निधत्ते लक्ष्मीविद्युल्ललललितवपुषं तत्र कारुण्यपूर्णम् मा भैषिस्त्वं मरकदशिलामेचकं वीक्ष्यमेकं शुद्धैर्नित्यं परिचितपदस्त्वादृशैर्देवहंसैः हंसीभूतः स खलु भवता मन्ववायाग्रजन्मा सारा स्वादी सवनहविषाम् स्वामिनस्ते स देवः शुद्धं चक्षुश्रुति परिषदां चक्षुषां फागधेयम् अङ्गीकुर्याद्विनदममृता सारसंवादिभिस्त्वाम् आविर्मोदैरभिमदवरस्थूलक्षै कडाक्षैः मध्वासक्तं सरसिजमिवस्विन्नमालम्बमानो देव्या हस्तं तदिकरकरन्यस्तलीलारविन्दः देवश्रीमान् स यदि विहरेत् स्वैरमारामभूमौ व्यक्तो वालव्यजनवपुषा विजयेस् तं त्वमेव जातिप्रीदिर्जनपदमधो मध्यमं लङ्कयित्वा दूरान्लक्ष्यक्रमुकनिवहस्यामलान्याहि चोलान् प्रत्युद्गच्छन्मकरवलनस्तम्भितैः सह्यजायाः श्रोतो भेदैर्विविधगतिभिः संविभक्तावकाशान् केशैर्ज्योत्स्ना कलहितिमिरं पालिका पीडगर्भैः सन्ध्यारागं सुरभिरजनीसम्भवैरङ्गरागैः आबिभ्राणा सरसिजदृशो हंसदोलाधिरोहा आध्यास्यन्ते मदकलगिरस्तेषु नेत्रोत्सवं ते पृथ्वी लीलातिलकसुभगं पश्चिमं भागमेषां नाम्ना जलचरनदी माद्रुकं गाहमानः द्रक्ष्यस्यारात्परिमितया मग्नकैलासदृश्यम् श्वेदं शैलम् फणिपदिमिवक्ष्मातला दुज्जिहानम् स्वारालोकप्रशमितमः सञ्चयम् तत्र पुंसाम् प्रत्यग्रूपम् प्रगुणविभवम् प्रार्थनीयम् बुधानाम् नेदीयांसम् कुशलनिवहं नन्तु राधास्यते ते दिव्यं ते जो जलधितनया स्नेहनित्यानुशक्तम् स्निग्धच्छायं तदनुविदधं तस्य धामेव नीलं नीलीरक्षा नियदलितं काननं संविचीयाः दृष्टे तस्मिन्ननिमिषवधू नित्यनिर्वेशयोग्ये स्वर्गोद्यानश्रियमपि लघुं मंस्यदे मानसं ते कुर्वन्नाकुसुमरजसा यत्र चित्रं विधानं पूगारण्ये मृतुविचलयन् बालिका चामराणि पादन्यासक्षममवकिरन् क्ष्मातलं पुष्पजालैः प्रायो वायुः परिजनविधिं पञ्चबाणस्य धत्ते श्रोदो वेगादधजनपदं सौम्यसीमन्दयन्ती प्रत्यादेशो विबु सरित से सके काले काले पशापेदर्ण्रेक्षू पुीन विशदगदा मौक्तिक भद्रालापैर्विहितकुशलां त्वादृशानां द्विजानां सह्योत्सङ्गात् सपदिमरुदा सागरं नियमानां यामस्कन्नात् सरसकुहली पत्रपादैर्निशान्ते मन्दस्मेरां मधु परिमलैर्वासयन्तीवपूगाः तस्मिन् द्रक्ष्यस्य मरमहिलां मौलिगन्धैरवन्द्याम् आगन्वानां व्यपकदरसं मानसे मानसं वः तीर्थैरन्यैरपि परिगदां शुद्धिहे दोत्समन्ताद चन्द्रोल्लासप्रथितयशसम्पदं पुष्करिण्याः तीरे तस्या विरचितपदं साधुभिः सेव्यमानं श्रद्धायोगाद्विनमिदतनुशेषपीठं भजे धाः यस्मिन्नस्मत्कुलधनतया सौम्य साकेदभाजः स्थानं भाव्यं मुनिभिरुदिदं श्रीमदो रङ्गधाम्नः सत्त्वे दिव्ये स्वयमुदयतस्तस्य धाम्नः प्रसङ्गात् मञ्जूषायां मरकदमिव भ्राजमानं तदन्तः चेदो धावत्युपहिदभुजं शेषभोगे शयानं जलधितनया जीवितं देवमाद्यम् चोराक्रान्तं तदनुविपिनं चोलपाण्ड्यान्तरस्थं चिल्लीनादश्रवणपरुषम् शीघ्रमेवव्यधीयाः तीर्णे तस्मिन् प्रकटयसखे शीतलां स्ते निनादान् शब्दायन्ते न खलु कवयः प्रचलदलकं व्यक्तताडङ्करत्नम् मुखुदाचोर्णस्फुरित तिलकं वक्त्रमुत्थानयन्त्यः देशे तस्मिन् कुवलयदृशो जातकौतूहलास्त्वां माला दीर्घैर्मधुरविरुदं मानयिष्यन्त्यपाङ्गैः नित्यावासं वृषभमचलं सुन्दराख्यस्य विष्णोः प्रत्यासीदंसपदि विनमद्भागधेयं न तस्याः यस्योत्सङ्गे बलिविजयिनस्तस्य मञ्जीरवान्तं पाधो दिव्यं पशुपतिजडास्पर्शून्यं विभाति ईशादस्त्राण्यधिगतवदां क्षत्रियाणां प्रभावात् कारावासस्मरणचकितैसिक्तसस्यां पयोदैः पश्यन्याया परमलकया स्पर्धमानैरजस्रं पुण्यावासैपुरजनपदैर्मण्डितान् पाण्ड्यदेशान् मुक्ताजा जनबुलि शुक्तिसंधानुक्त तारापूर्ण दिवमिव तस्ताम्रपर्णी भजे ध्यास नियत विशद पीद सिंधुमहर्षे पानीये पिणमिता त्र मुक्ता मय तस्या स्वैरं सरसिजमुखा स्वादसम्प्रीतचेदाः शीदीभूतस्तरललहरी बाहुसंश्लेषणेन अध्यासीनपुलिनमनिलैर्वीजितश्चन्द्रनाद्रेः श्रान्तिं शान्तिं गमयतु भवान् सागरं लङ्कयिष्यन् सव्यं तस्या कियदिव गदश्यामतालीतमालां त्वत्प्रायाणां तरुणवयसां चेदसो नन्दयित्रीं वेलामब्धेर्विविधलहरी दत्तमुक्ताभिरामां स्थित्वा तत्र क्षणमुभयतशैलशृङ्गावतीर्णैः ोदो भेदैरधिगदगुणं चारु विस्फारकोषैः द्रक्ष्यस्याराद्विगुणमुलिनां केदकीनां परागैः लक्षीकुर्वन् दशमुखपुरीं सौम्यपत्रप्रकृष्टो वेलाचापं शर इव वेगतस्त्वं व्यदीयाः दावासक्तं वनमिव नभसन्ध्ययेवानुविद्धं सिन्धूराङ्गं द्वीपमिव हरिं स्वाम्बरेणेव युष्टं विद्युद्भिन्नं घनमिव सखे विद्रुमारण्ययोगात् देहेनैकम् मिथुनमिव पयोधिम् अस्मत्पूर्वै सुरपदिहृदम् द्रष्टुका मयि स्तुरङ्गम् भित्त्वा सागरो वर्धितात्मा सकारार्थम् तव यदि गिरीनादिशेद्गुप्तपक्षान् अश्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः तत्रासी न क्वचन सरसि हे लब्धास्वादो हेमारविन्दे लब्धा स्वादो मधुभिरमितैः संविनीताध्वखेदः द्रक्ष्यस्य अग्रे सिन्धोः तोयाखादान्मसृणितशिलारम्यवेलं सुवेलम् यस्याः सन्ने पयसि जलधे त्वत्प्रतिच्छन्तचन्द्राः पक्षच्छेदक्षरिदरुधिरस्तोमसन्दर्शनीयाः सन्ध्यामन्यां नियतमवनौ दर्शयन्ति प्रवालाः यत्रारण्यं वरुणवसतेर्वीचिवेकापनीतैः मुक्तरत्नस्तपकशबलाय विद्रुमैरुत्प्रवालं रक्षो भीताय स्वयमनिमिषैराहृतस्थापितानाम् मंदाराण मधुपरिमलवासीद मौलिदघ्न गंगा सिन्धो महलीफुने राजंसी वलीना तस्ंदृश्या तदनुभवतारुसौध वदाता द पवनतरलार्यापतापापदेशैः पक्षैरभ्युज्जिगमिषुरिवस्तास्यदि श्राव्यनादा इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु हंससन्देशे प्रथमाश्वासः समाप्तः